गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् 37 सेवन् तार्क्ष्य उवाच उदकुम्भप्रदानं मे कथयस्व यथा तथम् विधिना केन कर्तव्या कृतिरेषा जनार्दना किं लक्षणकेन पूर्णाः कस्य देयाजनार्दन कस्मिन्काले प्रदातव्या प्रेदतृप्तिप्रसाधकाः श्रीकृष्ण उवाच सत्यम् पुनः प्रवक्ष्यामि उद कुम्भप्रदानकम् प्रेदोद्देशेन दातव्या विशेषेण पक्षिन्प्रेदमुक्तिप्रदायकाः द्वादशाखे च तन्मास्ये त्रैपक्षे वापि वत्सरे उद कुम्भा प्रदातव्यामार्गे तस्य सुखाय वै अहन्यकनिदातव्या सुलिप्ते भूमिभागेदो पक्कान्न जलबूरिताः प्रदस्य तत्र दातव्यम्भाजनञ्जयदृच्छया सुप्रीतस्तेन दत्तेन प्रेदो याम्याई स गच्छति विशेषेण उदकम्भान् प्रदापयेद् विधिना सङ्कल्पय फडान् द्वादशसङ्ख्यकान् ये काशीवर्धनी तत्र पक्वान्नफलपूजिता विष्णुमुद्दिश्य दातव्या सङ्कल्प्य ब्राह्मणे शुभे एको वै धर्मराजाय तुष्टेन मुक्तिभाक चित्रगुप्ताय चैकम् दुगधस्तत्र सुखी भवेत् षोडशाभ्या प्रदातव्या माशान्नजलपूरिताः उत्रान्दिशाद्धमारभ्यशाद्धोडषोडशकस्य च षोडशब्राह्मणानान्दु एकैकम् विनिवदयेद। एकादशाखात्प्रभृति देयो नित्यम् दृढाह्वयः पक्वान्नजलपूर्णो दिनं यावत् जलपात्राणि वृद्धानि दत्तानि खटकानि च एका वैवर्धनी तत्र वस्त्रेणाच्छादयेत्तान्दुपूजयित्वा सुगन्धिभिः ब्राह्मणेभ्यो विशेषेण जलपूर्णानि दाभयेद् दा। अहन्याहनि सङ्कल्प्य विधिपूर्वं खगेश्वर ब्राह्मणाय कुलीनाय वेदवृत्तयुधाय च विद्यावृत्तवदे देयमूर्खे तन्न कदाचन समर्थो वेदवृत्ताढ्यस्तरणे तरणेऽपि च यदि श्रीकारूडे महापुराणे प्रेतकल्पे धर्मकाण्डे सोदकुम्भश्राद्धनिरूपणं नाम सप्तत्रिंशोऽध्यायाः ओम् अध्यायम् तर्टि एय् तार्क्ष्य उवाच दानतीर्थार्थितम् मोक्षम् स्वर्गम् च वद प्रभो केन मोक्षमवाप्नोति केन स्वर्गे वत्से चिरम् केन गच्छति तेजस्तु स्वर्गलोकात् सत्यलोकतः मानुष्यं केनलपदे नरकेषु निमज्जति यदन्मे वदनिश्चित्यभक्तानां मोक्षदायक ब्रूहि कस्मिन्मृदे स्वर्गे पुनर्जन्मन विद्यते श्रीविष्णुरुवाच मानुष्यं भारते वर्षे त्रयोदशसु जातिषु तत्प्राप्य म्रियते क्षेत्रे पुनर्जन्म विद्यते अयोध्या मधुरा माया काशी अवन्दिका पुरीद्वारवती ज्ञेया सप्तैता मोक्षदायिकाः सन्न्यस्तमिति योऽभ्रूया प्राणैः कण्ठगतैरपि मृदो विष्णुपुरं यादि न पुनर्जाय देक्षितौ सकृदुच्चरितं येन हरित्यक्षरद्वयम् बद्धपरिकरस्तेन मोक्षाय गमनम् प्रदि कृष्णकृष्णेधि कृष्णेधि वो नित्यशः जलभित्वा यथा पद्मं शालग्रामजिला यत्र यत्र द्वारवदीशिला उभयो संगमो यत्र मुक्तिस्तत्र न संशयः शालग्रामशिला यत्र पापदो शक्षया वः तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता रोपणात् पालनासेकाध्यानस्पर्शनकीर्तनाद तुलसीदहदे पापं नृणां जन्मार्जितं खग ज्ञानहृदे सत्यजले रागद्वेषमलापहे यस्नादो मानसे तीर्थे न स लिप्येदपादकैः न काष्ठे देवो नशिलायाम शिलायां कदाचन भावे हि विद्यते देवस्तस्माद्भावं समाचरेद प्राधप्राधप्रपश्यन्ति नर्मदा मत्स्यखादिनः न देशिव यान्ति चित्तवृत्तिर्गरीयसी यादृक्चित्त प्रदी ताद्र, कर्म प्रदीदि सूजी सूत्र परलोकगतिस्तादृसूचीसूत्रविचारवद ब्राह्मणार्थे गवार्थेजस्त्रीणाम् बलवधेषु च प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयाद अनाश्यके मृदौ त वै मोक्षमवाप्नुयाद अनाशके मृदो यस्तु समुक्तसर्वबन्धनैः दत्त्वादानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयाद ये देवै मोक्षमार्गाश्च गोग्रहे देश्यविध्वंसे मरणं रणतीर्थयोः उत्तमाधममध्यस्य बाध्यमानस्य देहिनः आत्मानम् तत्र सन्त्यज्य स्वर्गवासं लभे चिरम् जीवितम् मरणम् चैवद्वयम् शिक्षेदपण्डितः जीवितम् दानभोगाभ्यां मरणम् रणतीर्थयोः हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव भासे श्रीस्थले चैव अर्बुदे च पुष्करे भूतेश्वरे मृदो यस्तु स्वर्गे वसदिमानवः मानवः ब्रह्मणो दिवसं यावत्तदपदति भूतले वर्षभृत्तिन्दु यो दद्याद्ब्राह्मणे दोषवर्जिते सर्वं कलं समुद्धृत्य स्वर्गलोके महीयते कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदभारगम् इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः महादानानि दत्वा च नरस्तत्फलमा मुयाद वापि जीर्णोद्धारम् प्रकुर्वाण पूर्वकर्तुः फलम् लभेद जीर्णोद्धारेण वा तेषाम् तत्पुण्यम् द्विगुणम् भवेद् शीतवातातपहरमभि विदुषे प्रददादि प्रददादिकुटुम्बिने तिस्रकोट्योर्ध्वकोटि च नरस्वर्गे महियते। या स्त्री सवर्णा संशुब्धा मृदम् पतिव मनुव्रजेत् सा मृदा स्वर्गमाप्नोति वर्षाणां रोमः सङ्ख्यता पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं स्वर्गं लभेदां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ कृत्वा पापान्यनेकानि भर्तृद्रोहमधिः सदा प्रक्षालयति सर्वाणि अश्वं पदिमनुव्रजेद महापापसमाचारो भर्ता चेद् भवेद तस्याप्यनुव्रता नारी नाराये सर्वकिल्बिषः ग्रासमात्रम् नियमदो नित्यदानं करोदि यः चतुश्चामरसंयुक्तविमानेनाधिगच्छति यत्कृतम् हि मनुष्येण पापमामरणान्तिकम् तत्सर्वम् नाशमायाति वर्षवृत्तिप्रदानदः बोधं भव्यं भविष्यञ्च पापं जन्मत्रयार्जितं पक्षालयति तत्सर्वं विप्रकन्योपनायनाद दशकूपसमवापि दशवापी समं सरः याप्रपानर्जले याप्रपानिर्जलेवने या वापि नर्जले देशे यद्दानम् निर्धने द्विजे प्राणिनाम योधयाम् दत्ते स भवेकनायकः एवमादिभिरन्यैश्च सुकृत्याै स्वर्गभाग्भवेद सतत् सर्वम् फलम् प्राप्य प्रतिष्ठाम् परमाम् लभेद फल्गुकार्यम् परित्यज्य सततम् धर्मवान् भवेद दानं दमोदया चेदि सारमेधत्रयम्भुवि दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम् अनाथप्रेतसंस्कारकोडियज्ञफलप्रदाः यदि श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे उत्तमलोकगत्यागतिमोक्ष मानुष्यहेतुनिरूपणम् नामाष्टात्रिंशत्तमोऽध्यायः ओम् अध्यायम् तर्टि नैन् तार्क्ष्य उवाच सूतकानाम् विधिम् ब्रूहि दयाम् कृत्वा मयि प्रभो विवेकाय हि चित्तस्य मानवानां हिताय च श्रीकृष्ण उवाच मृदे जन्मनी पक्षीन्द्रसूदकं स्याचतुर्विधं चतुर्नामपि वर्णानां सामान्यदे विवर्जितम् उभयत्र दशाहानि कुलस्यान्नं विवर्ज्येद दानं प्रतिग्रहो होमस्वाध्यायश्च निवर्तते दे। दशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् उपपत्तिमवस्थाञ्च ज्ञात्वा कर्म समाचरेद वह्निप्रवेशे च देशान्तरमृतेषु च स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते आमगर्भाश्च ये जीवा ये जगर्भाद्विनिःसृताः न शिल्पिनकारवो वैद्या दासी दासास्तथैव च राजानश्रोधियाश्चैव सद्यशौजा प्रकीर्तिताः स्त्रीश्च मन्द्रभूतैश्च आहिताग्निर्नृपस्तथा यदेषाम् सूतकम् नास्ति यस्य चेच्छन्ति पार्थिवाः प्रसवेजस पिण्डानां न कुर्यात्सङ्गरं द्विजः दशाः श्रुध्यते मादा अवगाह्य पिधा शुचिः विवाहोत्सवयज्ञेषु अन्तरामृतसूतके पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीद सर्वेषामेव मा मातापित्रोऽस्तु सूदकं सुगतं माधुरेवा स्यादुपस्पृश्य पिता शुचिः अन्तर्दशाखे स्याताञ्चेत् पुनर्मरणजन्मनि तावत् स्याद शुचिर्विप्रो यावत्त स्यादनिर्दशम् उदिदे दाने आर्ते विप्रे निवेदयेद तथैव ऋषिभिः प्रोक्तं यथा कालं न दुष्यति मृन्मये न दुपात्रेण तिलैर्मिश्रजलैः सह मृत्तिकया तथान्ते जनरस्नात्वा शुचिर्भवेद दानं परिषदे सुवर्णम् गोवृषम् द्विजे क्षत्रियोद्विगुणम् चैव वैश्यस्तु त्रिगुणम् तथा चतुर्गुणं तु शूद्रेण दातव्यम् ब्राह्मणे धनम् एवमनुक्रमेणैव चादुर्वर्ण्यम् विशुध्यदि सप्ताष्टमान्तरैशीर्णे गृह्यसंस्कारवर्जिते अहस्तु सूतकं तस्य त्वब्दानां सङ्ख्यया स्मृदन् ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च आहवेषु विपन्नानामेकरात्रमशौकं न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः न तेषामशुभम् किञ्चिद्विप्रेण सहकारिणा जलावगाहनात् तेषाम् विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः तदा विप्रेण ुः इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणम् का नामैकोनचत्वारिंशोऽध्यायः ओम् अध्यायम् 40 तार्क्ष्य उवाच भगवन्ब्राह्मणा केचिदपमृत्युवशं गदाः कथं तेषां भवेन्मार्ग किं स्थानं का गतिर्भवेद् किञ्च युक्तं भवेत् विधानं वापि तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदना श्रीकृष्ण उवाच प्रदिभूदे द्विजातीनां सम्भूदे मृत्युवैकृते तेषां मार्गगतिस्थानं विधानं कथयाम्यकं शृणु तार्क्ष्यपरं गोप्यं जादे दुर्मरणे सदि लङ्घनैर्ये मृदाविप्रादं श्रिभिश्चाभिखादिताः कण्डग्राहविमग्नानां क्षीणानां तुण्डकादिनां विषाग्निवृषविप्रेभ्यो विशुच्या चात्मखादपाः पदनोद्वन्धनजलैर्मृदानां शृणु संस्थितं यान्ति ते नरके घोर्यये जम्ले चादिभिर्हदाः श्व शृगालादिसंस्पृष्टा अधघृता कृमिसङ्कुलाः उल्लङ्घिता मृताय जहारोगैश्च पीडिताः अपि सस्तास्तथव्यङ्गाय च पापान्नपोषिताः चण्डाला धुतकात् दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृदाः उदक्या मोदकी शूद्र रजकी सङ्गदूषिताः तेन पापेन नरकान्मुक्ता प्रेतत्वभागिनः न तेषाम् कारयेदाकम् सूदकम् च न द्वौर्ध्वदैहितम् तेषाम् तार्क्ष्यप्रकुर्वेदनारायणबलिक्रियाम् सर्वलोकहितार्थाय शृणुपापभयापहम् षण्मासम् ब्राह्मणे दाहस्त्रिमासम् क्षत्रिये मदः सार्धमासं। दु वैश्यस्य सद्यस्य उद्रे विधीयते गङ्गायां व्यमुनायाञ्जनैमिषे पुष्करेध च तडागे जलपूर्णे वा विमलोदगे वा वाप्याम् कूपे गोष्टे गोष्ठे गृहे वा प्रदिमालये कृष्णाग्रे कारयद्विप्रबलिम् नारायणाह्वयम् प्रेदाय तर्पणम् कार्यम् मन्त्रै पौराणवैदिकैः सर्वौषध्यक्षतैर्मिश्रायैर्विष्णुमुद्दिश्य तर्पयेद कार्यम् पुरुषसूत्रेण मन्त्रायिर्वा वैष्णवैरपि दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेद दे। अनादिनिधनो देवशङ्खचक्रगदाधरः अव्ययपुण्डरी काक्षप्रेदमोक्षप्रदो भवेद् तर्पणस्यावसाने च विदरागो विमत्सरः जितेन्द्रियमना भूत्वा शुचि मान्थर् मदत्परः दानधर्मरथशान्तप्रणम्य वाग्यदशुचिः यजमानो भवे शुचिर् न्धुः समन्विदः भक्रिया तत्र प्रकुर्वीद श्राद्धत्येकादशैव तु सर्वकर्मविपाकेन एकैकाग्रे समाहिदः तोयव्रीह्यवान्षष्ट्या गोधूमांश्च प्रियङ्गूकान् हविष्यान्नम् शुभमुद्राम् चत्रोष्णीषे चलेकम् दापये सर्व क्षीरक्षौद्रयुधानि च वस्त्रोपानः संयुक्तम् दद्यादष्टविधम् पदम् दापये सर्वविप्रभ्यो न कुर्यात् पङ्क्तिबन्धनम् भूमौस्ति तेषु पिण्डेषु गन्धपुष्पाक्षतन्विधम् शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक् पृथग ध्यानधारणसंयोक्तो जानुभ्यामवनिं गतः दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानदः ऋजा वैदापये मेको दिष्टे पृथक् पृथग आपो देवीर्मधुमदीरादिपीठे प्रकल्पितम् उपयाम गृहीतोऽसि द्विदीयेऽर्खम् निवेदयेद येन पावगचक्षुषादृदीये च सकल्पितम् ये, ये, सकल ये देवासश्च दुर्धे दुसमुद्रम् गच्छ पञ्चमे अग्निर्ज्योदिस्तथा षष्ठे हिरण्यगर्भः सप्तमे यमायत्वाष्टमे यज्ञग्रन्नवमे तथा दशमे या बलिनीधिपिण्डे चैकादशे ततः भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनं कृत्वैकादशदेवत्यं श्राद्धं कुर्यात् परेहनी विप्रानावाहयेत्पञ्चचतुर्वेदविशारदान् विद्याशीलगुणोपेतान् स्वकीयाञ्चीलसप्तमान् ङ्गान् सप्रशस्तांश्च न त्वज्ञान् कदाचन विष्णुस्वर्णमयपर्यो रुदस्ताम्रमयस्तथा ब्रह्मा रूप्यमयस्तद्वद्यमो लोकमयो भवेद शीर्षकम् तु भवेत्प्रेतम् त्वथवा दर्भकम् तथा सन्नो देवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेद अग्न आयाहीदि रुद्रमुत्तरत्रैव विन्यसेद अग्निमीलेधि मन्त्रेण पूर्वेणैव प्रजापदिं इषेत्वार्ज्योतिमन्त्रेण दक्षिणे स्थापयेद्यमम् मध्ये मण्डलकम् कृत्वा दर्भमयो नरः ब्रह्मा विष्णुस्तदा रुद्रो यमप्रेतम् च पञ्चमः पृथक् कुम्भे तदस्तभ्य पञ्चरत्नसमन्विताः वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च जपम् कुर्यात् भक्तत्र ब्रह्मादौ देवतासु च पञ्चश्राद्धानि गुर्वीदेवतानां यथा विधि जलधारां तद्यत्पीठे पीठे पृथक् पृथक् शङ्खे वा ताम्रपात्रे वा अलाभे मृण्मयेऽपि वा तिलोदकम् समादाय सर्वौषधि समन्वितम् आसनोपानहौच्छत्रमुद्रिका च कमण्डलुः भाजनम् भाजनाधारम् वस्त्राण्यष्टविधम् पदम् ताम्रपात्रम् तिलैपूर्णम् सहिरण्यम् सदक्षिणम् दद्याद्ब्राह्मणमुख्याय विधियुक्तम् खगेश्वर ऋग्वेदपारगे दद्या जादसन्स्याम्बुन्धराम् यजुर्वेदमये विप्रेगाञ्ज दद्यात् पयस्विनीम् सामगाय शिवोद्देशात् प्रदद्यात्कलधौदकं यमोदेशातिलां लोहं ततो दद्याच्च दक्षिणाम् पश्चात् पुत्तलगं कार्यं सर्वौषधिसमन्वितम् पलाशस्य च वृत्तानाम् विभागम् शृणुकाश्यप कृष्णाजिनम् समस्तीर्य कुशैश्च पुरुषाकृतिम् शतत्रयेण षष्ट्या च वृन्दै प्रोक्तोऽस्ति सञ्जयः विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक् ग्रीवायां दशविन्यसेद विंशत्युरस्थले दद्याद्विंशतिं जठरेऽपि च बाहुयुग्मे शदं दद्यात् कटिदेशे च विंशतिं पुरुद्वये शदञ्जापित्रिंशद् जङ्घाद्वये न्यसेद दद्याश्चतुष्टयं शिष्णे षड् दद्याद् वृषणद्वये दशपादाङ्गुलीभागे एवमस्तीनि विन्यसेद नारीकेलं शिरस्थाने तुम्बं दद्याश्च तालुके पञ्चरत्नं मुखे दद्यात् जिह्वायां कदलीफलम् अन्त्रेषु नालकं दद्यात् बालकं वसायी मेदकं दद्यात् गोमूत्रेणधुमूत्रकं गन्धकं धादवेदे यो हरितालं मनःशिला रेदस्थाने पारदं च बुरीषे पित्तलं तधा मनःशिलां तदा गात्रे तिलकल्कञ्चसन्धिषु यवपिष्टं तधा मांसे मधुवै क्षौद्रमेव च केशेषु वैवडजडा त्वजि दद्यान्मृगत्वजं कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः नासायां शतपत्रं च कमलं नाभिमण्डले वृन्दागम् वृषणद्वन्द्वे लिङ्गे स्यात् गृञ्जनम् शुभम् घृतं नाभ्याम् प्रदेयम् स्यात् कौपीने चत्रपुस्मृतम् मौक्तिकम् स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम् कर्पूरागुरुधूपैश्च शुभ्रैर्माल्यै सुगन्धिभिः परिधानं पट्टसूत्रं हृदये रुक्मगम्यसेद वृद्धिवृद्धिभुजौ द्वौ चक्षुषोश्च कपर्दकौ सिन्धूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः सर्वौषधियुधं प्रेदं कृत्वा पूजा यतोदिदा साग्निके चापि विधिना यज्ञ पात्रं न्यस्येत्क्रमाद शिरो मे श्रीरितिरुचा पुनन्तु वरुणेति च पावनं कृत्वा शालिशालशिलोदकैः विष्णुमुद्दिश्य दातव्या सुशीलाद्घौ पयस्विनी तिलालोहम् हिरण्यम् च कार्पा संलवणम् तथा धा, सप्त धान्यम् क्षिदीर्गावयेकैकम्पानसमृतम् पानम् समृतम् तिलपात्रम् ततो दत्त्वा पददानम् तथैव च महादानानि देयानि तिलपात्रम् तथेति च ततो देया दे सर्वाभरणभूषिता कर्तव्यं वैष्णवं श्राद्धं प्रेत मुक्ति अर्थमात्मवान् प्रेदम् मोक्षं तद कुर्या धृतिविष्णुं प्रकल्प्य च ॐ विष्णुरिति संस्मृत्य प्रेदं तन्मृत्युमेव च अग्निदासं तद कुर्यासूतकन्दुदिनत्रयम् दशाख कर्त्रापि पिण्डाश्च कर्तव्या प्रेतभुक्तये सर्वं वर्षविधिं कुर्या देवं प्रेतश्च मुक्तिभाक इति श्रीकारुडे महापुराणे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेपमृत्यौ सुखदु लाभालाभनिरूपणम् नाम चत्वारिंशत्तमोऽध्यायः ओम् अध्यायम् फार्टिवन् श्रीविष्णुरुवाच वृषोत्सर्गम् प्रगुर्वीदविधिपूर्वम् खगेश्वर कार्तिकादिषु मासेषु पौर्णमास्याम् शुभे दिने विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेद कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः विवाहविधिना सर्वं कुर्याद् ब्राह्मणवाचनम् पात्रा साधनम् श्रवणमुपयमनकुशादिकम् कुर्युक्षणाम् देहोमम् च पर्याद्वै ब्राह्मणेन दु आकारा वाज्यभागौ च चक्षुषी च प्रदापयेद प्रथमे हरितिमन्त्रेण होतव्याश्च षडाहुदीः आकारा वाज्यभागौ तु पायसेनाङ्गदेवताः अग्नये रुद्राय शर्वाय पशुपदये उग्राय शिवाय भवायमः देवाय शनाय यमाय च पिष्टकेन सगृद्धो मं पुषा उभयो इति मन्त्रतः कुधेम उभयोस्विष्टि उभय उभयोस्विष्टि कूधोमश्चरुणापायसेन च प्रथमं व्याहृदि होमप्रायश्चित्तं प्रजापतिः संस्त्रवप्राशनं कुर्यात् प्रणीता परिमोक्षणं पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणातदः षडङ्गरुद्रजाप्यनप्रोधो मोक्षमवाप्नुयाद एकवर्णं मृषञ्चैव सकृद्वत्सतरीं खग स्नापयित्वा तदकुर्या सर्वालङ्कारभूषितं प्रदिष्टाप्य च तद्युग्मं प्रेदो मोक्षमवाप्नुयाद पुच्छे च तर्पणं कार्यमुच्छ्रुदे मन्त्रपूर्वकम् ब्राह्मणान् भोजयेत्पश्चा दक्षिणाभिश्च तोषयेद् तदश्राद्धं समुद्दिष्टमेकोद्दिष्टं यथा विधि जलमन्नम् तथा देयं प्रेतोद्धरणहेतवे द्वादशाखे तथा कुर्यान् मासे, मासे प्रदक, ेवंविधिसमयुक्तप्रेतमोक्षो करोतिः यदि श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृक्षोत्सर्गनिरूपणम् नामैक चत्वारिंशत्तमोऽध्यायः ओम् अध्यायम् फोर्टि टु श्रीविष्णुरुवाच यथा धेनुसहस्रेषु वत्सो विन्दतिमादरम् तथा पूर्वकृतम् कर्म कर्तारमनुगच्छति आदित्यो वरुणो विष्णुर्ब्रह्म सोमोहुदाशनः शूलपाणिश्च भगवानभिनन्दति भूमिदम् नास्ति भूमि समम् दानम् नास्ति भूमिसमो ृतात्पादकम् परम् अग्नेरपत्यम् प्रथमम् सुवर्णम् भूर्वैष्णवी सूर्यसुधाश्च भावः लोकत्रयम् तेन भवेत् प्रदत्तम् यः काञ्चनम् गाञ्चमहीम् च दद्याद त्रिण्याहुरतिदानानि गावः पृथ्वी सरस्वती नरकादुद्धरन्त्येते जपपूजनहो मतः कृत्वा बहूनि पापानि रौद्राणि विपुलानि च अपि गोचर्ममात्रेण भूमिदानेन शुध्यति अरन्दमपि लोभेन निरुध्यैनं निवारयेत् सयादिनरके घोरे यस्थं न परिरक्षति अकर्तव्यं न कर्तव्यं प्राणैखण्डगतैरपि कर्तव्यमेव कर्तव्यमिति धर्मविदो विदुः आकारप्रवर्धने पापम् को सहस्रवधैषमम् वृत्तिखेदे तथा वृत्ते करणम् लक्षधेनोगम् वरमेकाप्यपहृद न दु दत्तम् गवां शतम् एकाम् हृत्वा शतम् दत्त्वा स्वयमेवतु योदत्वा यो दत्त्वा स्वयमेव प्रबाधते सपापी नरकं यादि यावदा न चाश्वमेधेन तथा विधिवद्दक्षिणावदा आवृत्तिकर्षिते दीने ब्राह्मणे रक्षिते यद्धा न तद्भवति वेदेषु यज्ञे सुबहुदक्षिणे यत् दुर्बले त्रस्ते ब्राह्मणे परिरक्षिते ब्रह्मस्वैश्च सुपुष्ठानि वाहनानि बलानि च युद्धकाले विचीर्यन्ते सै गदा यथा स्वदत्ताम् वरदत्ताम् वा यो हरे च षष्टिवर्षसहस्राणि विष्टायाम् जायते कृमिः ब्रह्मस्वम् प्रणयभुक्तम् दहत्या सप्तमम् कुलम् तदेव चौर्यरूपेण दहत्या चन्द्रतारकम् लोहचूर्णाश्मचूर्णानि कदाचिज्जरयेत् पुमान् ब्रह्मस्वं त्रिषु लोकेषु क पुमाञ्जरयिष्यति देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च कुलान्यकुलदां यान्ति ब्राह्मणादिक्रमेण च ब्राह्मणादिक्रमो नास्ति विप्रे विद्याविवर्जिते ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि भूयते न हि भस्मनि भूयते सङ्क्रान्तौ हव्या, यानि दानानि हव्यकव्यानि यानि च सप्तकल्पक्षयम् यावद् ददात्यर्कः पुनः पुनः प्रदिग्रहाध्यापनयाजनेषु प्रदिग्रहम् स्वेष्टतमम् वदन्ति प्रदिग्रहाच्छ्रुध्यति जाप्य होमम् न याजनम् कर्म पुनन्ति वेदाः सदा चापि सदा होमी रत्नपूर्णामभिमहीम् प्रतिगृह्णन्न लिप्यते इति श्रीगारूडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे भूदानादिनिरूपणम् नाम द्विचत्वारिंशतमो धयायः ओम् अध्यायम् 43. श्रीविष्णुरुवाच जलाग्निबन्धनभ्रष्टा प्रभ्रज्यानाशकच्युताः ऐन्धवाभ्यां विशुद्ध्यन्ति दत्त्वा धेनुम् तथा वृषम् ऊनद्वादशवर्षस्य चतुर्वर्षाधिकस्य च प्रायच्चित्तम् चरेन्मादापिता वान्योऽपि बान्धवः अदो बालनरस्यापि ना नापराधो न ना पादकं राजदण्डो न तस्यास्ति प्रायचित्तं न विद्यते रक्तस्य दर्शने दष्टे आधुरा स्त्री भवेद्यति चुधेग्नि पदादींश्च त्यक्त्वा स्नात्वा विशुध्यति आधुरे स्नान उत्पन्ने ो ह्यनातुरः स्नात्वा स्नात्वा स्पृशेदेन तद शुद्ध्येत्स आदुरः यदि श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुड वा संवादे शुद्धिनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॐ अध्यायम् फोर्टिफोर् श्रीविष्णुरुवाच स्वेच्छया तार्क्ष्यमरणम् श्रृङ्गिदंष्ट्रिसरीसृपः चाण्डालाद्यात्मघादैश्च विषाद्यैस्ताडनैस्तथा जलाग्निपादवातैश्च निराहारादिभिस्तथा येषामेव भवेन्मृत्युप्रोक्तास्ते पापकर्मिणः पाषड्यनाश्रमाश्चैव महापादकिनस्तथा स्त्रियश्च व्यभिचारिण्य आरूढपदितास्तथा न तेषां स्यान्नवश्राद्धं न संस्कारसपिण्डनम् श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि वेदनं यक्षिपेदप्सु गृह्याग्निश्च च दुष्पथे पात्राणि निर्दहेदग्नौ साग्निके पापकर्मणि पूर्णे संवत्सरे तेषामिद्धं कार्यं दयालुभिः एकादशीं समः साध्य शुक्लपक्षे च काश्यप विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः दशपिण्डान् क्रुद्धाकृदांश्च दर्भेषु मधुसंयुधान् यज्ञोपवीति सतिदान् विष्णुं यमम् तथा दक्षिणाभिमुखस्तूष्णी उद्धृत्यमिश्रिदान्पश्चातीर्थेऽम्भःसु विनिः क्षिपेद् क्षिपन् संकीर्तयेन्नामगोत्रं च मृतकस्य च पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः धूपदीपैः स नै भोज्य भोज्यसमन्वितैः तस्मिन्नुपवस्येदह्नि विप्रांश्चेव निमन्त्रयेद कुलविद्यातपयुक्तान् साधुशीलसमन्वितान् नव सप्ताधव पञ्चस्वसामध्यानुसारदः अपरेहनि मध्याह्नेयमं विष्णुं तथार्चयेद् उदङ्मुखांस्तदा विप्रांस्तान् सम्यगुपवेशयेद आवास नार्कदानादौ विष्णुं यमसमन्वितं यज्ञोपवीदी गुर्वीदप्रेतनाधप्रकीर्तयेद प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेद अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेद पृथग् त्वादशपिण्डांश्च पञ्चद्यात् क्रमेण तु प्रथमम् विष्णवे दद्याद्ब्रह्मणे च शिवाय च सभृत्याय शिवायाधप्रेदायापि च पञ्चमम् नामगोत्रम् स्मरे तस्य विष्णुशब्दम् प्रकीर्तयेद नमस्कारशिरस्कन्तु पञ्चमम् पिण्डमुद्धरेद गो भूमिपिण्डदानाद्यै शक्रियाप्रेदं स्मरञ्च तं स्थिलै स्थिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा एवं विप्रं। विप्रम् अरिण्येन प्रभूजयेद नाम स्मरन् दद्याद्विष्णुप्रीतोऽस्त्वि दिब्रुवन् अनुव्रज्य द्विजान् पश्यात्यक्दाम्भो दक्षिणामुखः कीर्तयन्नामगोत्रे दु भुवि प्रीतोऽस्त्वि दिक्षिपेद मित्रबन्धुजनैः सपिण्डीकरणादौ दु हृदे चैवाप्नुवन्दिदे अथ कश्चित् प्रमादेन म्रियते ह्युदकादिभिः संसारप्रमुखस्तस्य सर्वं कुर्याद्यथा विधि प्रमादा दिच्छयामर्त्यो न गच्छेत् सर्प सम्मुखः नागं पञ्चमी शुप्रपूजयेद कुर्यात्पिष्टमयीम् लेखाम् नागानामाकृतिम् भुवि अर्चयेत्ताम् सिधैपुष्पैः सुगन्धैश्चन्दनो चन्दनेन च प्रदध्याद्धूपदीपन्तुतण्डुलांश्च सिदान् क्षिपेद आमपिष्टम् तथैवान्नम् क्षीरम् च विनिवेदयेद उपस्ताय वदे देवमुञ्चन् मुद्रांशुकानि च मधुरं तद्दिने श्रीयाद्देवश्राद्धं समापयेत् सौवर्णं शक्तितो नागं ततो दद्याद्विजोत्तमे धेनुं दत्त्वा ततो ब्रूयात् प्रीयतां नागराडिति यथा विभव्यं गुर्वीधकर्माण्यन्यानि पूर्ववद स्वशाघोक्तविधानेन युद्धं गुर्याद्यथा न्मोचयेत्तां स्तुत्स्वर्गमार्गं नयेत् च इति श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दुर्मरणे पर्याकार्यक्रियादिनिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः ओम्